हरि ओ श्री सीताचंद्रभ्या अथ श्रीमद्वायण युद्धकांडे अष्टाशर्ग नीलकर्तुक प्रशस्त वत नियात दुष्टारक्यम उच सस्मृत रामो विभीषण मरीन् क एष सु महाकायो बलेन महतावृतः आगच्छति महावेग किं महाबाहु वीर्यवन्तं निशाचरम् राघवस्य वचः श्रुत्वा पत्युवाच विभीषणः एष सेनापतितस्य प्रहस्तो नाम राक्षसः लङ्कायां राक्षसेन्द्रस्य त्रिभाग बलसंवृतः वीर्यवान् अस्त्र एष सेनापतितस्य प्रहस्तो नाम राक्षसः लङ्कायां राक्षसेन्द्रस्य त्रिभाग बलसंवृतः वीर्यवान् अस्त्रविच्छूर सुप्रख्यात पराक्रमः ततः प्रहस्तम् निर्यान्तम् भीमम् भीम पराक्रमम् गर्जन्तम् सुमहाकायम् राक्षसै अभिसंवृतम् ददर्श महती सेना वानराणाम् बलीयसाम् अभिसञ्जात घोषाणाम् प्रहस्तम् अभिगर्जताम् खड्गशक्त्र्योष्ठी शूलाश्च बाणानि मुसलानि च गदाश्च परिघा प्रासा विविधाश्च परश्वधाय धनुंषि च विचित्राणि राक्षसानाम् जेषिणाम् प्रगृहीतान्य वानरान् अभिधावताम् जगृहपादपा पुष्पितांस्तु गिरिस्तथा शिलाश्च विपुला दीर्घा योद्धु कामः प्लवङ्गमः तेषाम् अन्योन्यमासाद्य सङ्ग्रामः सुमः न भूत् बहूनाम् च शरवर्षम् च वर्षताम् बहवो राक्षसा युद्धे बहून् वानरपुङ्गवान् वानर राक्षसा निजघनुर्बून बहु शूर प्रमाथिता केचित केचित तू कैचि केचित् परमायुध परिघे आहता के, चित, के चित छिन्ना परुछ्छ्वास केचित कैचि पतितायतीले विभिन्न हृदय केचित इशु सन्धान साधता खड्ग पुरन्त पतिता भुवि वानर राक्षसै शूरै पार्वतश्च विदारितः वानरै चापि संक्रुद्धे राक्षसौघासमन्ततः पादपै गिरिशृङ्गैश्च सम्पिष्टावसुधातले वज्रस्पर्शतलै हस्तै मुष्टिभिश्च हता भुजम् वमं शोणितमास्येभ्यो विशीर्ण दशनेक्षणः आट्टस्वरं च स्वनर् सिंहनादं च नर्दताम् बभूवे तुमलशब्दो हरिणाम् रक्षसामपि वानराक्षसा क्रुद्धा वीरमार्ग मनोवृतः विवृते वदना क्रूर चक्रु कर्माण्य भीतवत् नरांतक नरान्तकः कुम्भनु समुन्नतः एते प्रसचिवाः सर्वे जघ्नुर्वनौकसः तेषां नेपतिताम् शीघ्रम् निघ्नतां चापि वा नराम् द्विदो गिरिशृङ्गेण जघानैकम् नरान्तकम् दुर्मुख पुनरुत्थाय कपि स राक्षसम् क्षिप्रहस्तम् तु समुन्नतम् अपोथयत् जाम्बवा तु सुसंक्रुद्ध प्रगृह्य महतिं शिलाम् पातयामास तेजस्वी महानादस्य वक्षसि अथ कुम्भु तत्र तारेणासाद्य वीर्यम् वृक्षेण महतासद्य अमृष्यमाणस्तत्कर्म प्रहस्तो रसमाश्रितः चकार कदनम् घोरम् धनुष्पाणीवन वनोकसाम् आवर्त इव सञ्जन्ये तेन यो भयोर्स क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः महता हि शरोघेण अर्दयामास संक्रुद्धो वानरान् परमाहवे वानराणाम् शरीरैस्तु राक्षसानाम् च मेदिनी बहुवाती चिता घोरैः पर्वतैरिव संवृता सामही हृदि रोघेण प्रच्छन्ना सम्प्रकाशते सञ्च्छन्नामाधवे मासि पलाशैरिव पुष्पितैः हत वीरोघ वप्रान्तु भग्नायुध महाद्रुमाम् शोणितौघमहतो यमासागरगामिनीम् यम यकृत् प्लीह महापङ्गाम् विनिकीर्णान् दृशैवलाम् भिन्नकाय शिरोमीनाम् अङ्का वयवशाद्वलाम् गृध्र कङ्कसारस्व सेविताम् मेधस्तेन समाकीर्णाम् आकस्तनीतनिश्व पुरुष दुष्टरम् युद्ध भूमि नदीमेव घनापाये हंसारसेविताम् राक्षसार कपि मुख्या ते ते रुस्तां नरे निम् गजयूतपः ततस्तु सृजन्तम् बाणोघ प्रहस्तम् स्यनिश्चितम् दर्श तरसा नीलो विधमन्तम् प्लवङ्गमाम् उद्धृत इव वायुखे भदभ्र बलम् बल समीक्षाभि धृतम् युद्धे प्रहस्तो वाहिनी पतिः रथेन आदित्यवर्णेन नीलम् एवाभिधु द्रुवे स धनुर्धन् विनाम् श्रेष्ठो विकृष्य परमाहवे नीलाय्य विसृजद्बाणाम् प्रहस्तो वाहि नेपतिः ते प्राप्य विशिखा नीलम् विनिर्भिद्य समाहितः मह्यम् जग्मुर् महावेगा रोषिता पन्नगः नीलशरैरभियतो निशितैर्ज्वलनोपमये स तम् परम दूर्धर्षम् आपतन्तम् हकपि प्रहस्तम् ताडयामास वृक्षम् उत्पाट्य वीर्यवान् स तेनाभिहतः क्रुद्धो नर्दन् राक्षस पुङ्गवहे तस्य बाणगणानेव राक्षसस्य दुरात्मनः अपालयन् वारयितुम् प्रत्य गृह्णा निमीलितः यथैव गोवशो वर्षम् शारदम् शीघ्रमागतम् एव प्रहस्तस्य शरवर्षाम् दुरासदाम् निमीलिताक्षसः सार नीलस्ते दुरासदाम् रोषितः शरवर्षेण शालेन महता महा प्रजघान हयानील प्रस्तस्य महाबलः ततो रोषे परीतात्मा जनुस्तस्य दुरात्मनः बभञ्ज तर्स नीलो ननाद च पुनः पुनः विधनुः स कृतस्थेन पतिः प्रगृह्य मुसलं घोरम् स्यञ्जनपुप्लुवे तौ भो वाहिनी मुख्यौ भ्रातवैरो तरस्विनौ स्थितौ क्षतज सिक्ताङ्गौ प्रभिन्नौ इव कुञ्जरौ उल्लिखन्तौ सुतीक्ष्णाभि दष्टाभिरितरेतरम् सिंहशार्दुलसदृशौ सिंहशार्दूलचेष्टितौ विक्रान्तै विजयो वीरौ समरेश्वनिवर्तिनौ काङ्क्षमाणो यश प्राप्तुम् वृत्र वासवयोरिव अजघान तदा नीलम् ललाटे मुसलेन सह प्रहस्ते परमायत् ततः सुस्रावशोणितम् तत शोणित दिग्धाङ्गृह्य च महतरुम् स्तस्यो रसे क्रुद्धो विससर्ज महाकपिः तमचिन्त्य प्रहारंस प्रगृह्य मुसलम् महत् अभिरुद्रावबलिनम् बलान् नीलम् प्लवङ्गमम् तम् उग्रवेगम् संरब्धम् आपतन्तम् महाकपिः ततः सम्प्रेक्ष्य च महावेगो महाशिलाम् तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः प्रहस्तस्य शिलां नीलो मूर्नि तूर्णम् अपातयेत् नीलेन कपिमुख्येन विमुक्ता महती शिला बिभेदे बहुधा गोः प्रहस्तस्य शिरस्तदा गता सुरगतश्रीको गतस्तो गतेन्द्रियः पपात सहसा भूमौ छिन्नमूल इव शिरसस्तस्य बहु सुस्राव शोणितम् शरीरादपि सुस्राव गिरे प्रस्रवणम् यथा हते प्रहस्ते नीलेन तदङ्गम्प्यम् मह बलम् राक्षसानाम् अरुष्टानाम् लङ्कामभिजगामः न शेकोशमवस्थातुम् निहते वाहि मे पतौ सेतुबन्धम् समासाद्य विशीर्णम् सलिलम् यथा हते तस्मिञ्च मु मुख्ये राक्षसास्त्रे निरुध्यम रक्षपति गत्वा ध्यानमुकर्त्वमागतः प्राप्ता चो काणवम् ततः तु नीलो विजयी महाबल प्रशस्यमान सुकृतेन कर्मणा समेत रामेण स लक्ष्मणेन प्रवृष्ट रूपस्तु बभूव यूथप इत्यार्थे श्रीमद् रामायणे वाल्मीकियाधिकारकाण्डे अष्टपञ्चाश सर्गः श्रीसीतारामचन्द्रार्वणमस्तु